अथ नवमोऽध्यायः श्रीभगवानुवाच इदम् तु ते गुह्यतमम् प्रवक्ष्याम्य न सूयवे ज्ञानम् विज्ञानसहितम् यज्ञात्वा मोक्षसे शुभ राजविद्या राजगुह्यम् पवित्रमिदमुत्तमम् प्रत्यक्षावगमं धर्म्यम् सुसुखं कर्तुमव्ययम् अश्रद्धधानाः पुरुषाः धर्मस्य परन्तप अप्राप्यमाम् निवर्तन्ते मृत्युसंसारवर्त्मनि मया ततमिदम् सर्वम् जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहम् तेष्वस्थितः न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् भूतभृं न च भूतस्थः ममात्मः भूतभावनः यथाकाशस्थितो नित्यम् वायोः सर्वत्र गोमः सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिका कल्पक्षये पुनस्तानी कल्पादौ विसृजाम्यहम् प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमम् अवशं अवशम् प्रकृतेर्वशादि न कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनम् असक्तम् तेषु कर्मसु मयाध्यक्षेण प्रकृतिः श्रूयते स हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति माम् मूढाः मानुषीं तनुमाश्रितम् परम् भावमजानन्तः मम भूतमहेश्वरम् मोघाशामोघकर्माणः मोगा मोघज्ञानाविचेतसः राक्षसीमासुरीञ्च प्रकृतिम् मोहिनीम् श्रिताः महात्मानस्तु माम् पार्थ दैवीम् प्रकृतिमाश्रिताः भजन्त्यनन्यमनसः ज्ञात्वा भूतादिमौ व्ययम् सततम् कीर्तयन्तो माम् यतन्तश्च दृढौ नमस्यन्तश्च माम् भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहम् क्रतुरहम् यज्ञः स्वधाहमहमौषधम् मन्त्रोऽहमहमेवाज्यम् अहमग्निरहंहुतम् पिताहमस्य जगतः माता धाता पितामहः वेद्यम् पवित्रमोङ्कारः ऋक्सामयजुरेव गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयस्थानम् निधानम् बीजमव्ययम् तपाम्यहमहं वर्षम् च अमृतञ्चैव मृत्युश्च सदसच्चाहमर्जुन त्रैवेद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यां दिवि ते तम् भुक्त्वा स्वर्गलोकं विशालम् क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवम् त्रयी धर्ममनुःप्रपन्नाः गतागतम् कामकामा लभन्ते अनन्याश्चिन्तयन्तो माम् ये जनाः पर्य तेषाम् नित्याभियुक्तानाम् योगक्षेमं वहाम्यहम् एप्यन्यदेवता भक्ताः यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानाम् भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातस्य वन्ति ते यान्ति देवव्रता देवान् पितृान्ति पितृव्रताः भूतानि यान्ति भूते ज्याः यान्ति मद्यादिनोऽपि पत्रम् पुष्पम् फलन्तोऽयम् यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि यत ददासि यत् यत्तपस्य सि तत्कुरुष्वमदर्पणम् शुभाशुभफलैरेवम् मोक्ष्यसे कर्म बन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैश्यसि समोऽहं सर्वभूतेषु के भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् सुदुराचारः भजते मामनन्यभाग, साधुरेव समन्तव्यः सम्यग्व्यवसितो हि सः क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेयप्रतिजानीहि न मे भक्तः प्रणश्यति मां हि पार्थव्यपाश्रित्य केऽपि स्युः पापयोनयः स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यान्ति परां किम् पुनर्ब्राह्मणाः पुण्याः भक्ता राजर्षयस्तथा अनित्यमसुखम् लोकम् इमम् प्राप्य भजस्व मा मन्मनाभव नमस्कुरु मामेवैष्यसि आत्मानं मत्परायणः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या नवमोऽध्यायः